त्वयतो वयमसर्वाणो लघ्नो रक्षां सोटे त्वया जटालकश्रमस्त्वजा कण्वो अगस्त्याः त्वया भयमप्सरतो गन्धर्वांसा त्वयामहे अजर सङ्गत रक्षः सर्वान् गन्धेलनाशजा वदीयम् त्वप्सरतोपाम् तारमावश्वसन् ङ्गुरोऽपि नारोन्दे समन्दरे तत्परे दाक्षरधप्रदेबुद्धा होलना यत्रा श्र्यक्रोधा महावशः श्रीकण्डिरा तत्परे दाक्षरधप्रति बुद्धाभोदना यत्र मम प्रेङ्कारीता अर्जुना उदयत्रा गादा तत्कर्यः संवदन्ति तत्परे ताप्सर सप्रति बुद्धाभूत ये यमगन्मोषधीनाम् वीरलाम् वीर्यावती अजलिङ्गीर्योगतो आनृत्यदर्शिखण्डिना गन्धर्वस्याप्सरापतेः विरलद्मेष्कावीरा विषय धीमालिन्द्रस्य हेतर शत वृष्टेर यस्मै काविरविरलाङ्गम् धर्वानावगादाम् ज्योडता धीमा इन्द्रस्य हेदरशत वृष्टे हिरण्यैः काभिर विरलाङ्गम् दर्वा न अवगादान् जोषत अवगादान विरोदानम् सज्जोतरमावगान विशाचान् सर्वा औषधे प्रवृणे नः स्वजाेकः कविदेकः कुमारः सर्वकेशकः प्रियो दृढदेव भूत्वा गन्धर्वस्व जय स्त्रियस्तमितो ब्रह्मणार्यावता जायाय सर्वगन्धर्वास्पदयजो योजम् आवधावतामर्द्यामर्द्यान् उद्दिन्दतीम् <Sus> कण्डयन्देमक्षराम् साधुदेवनी गहे कृताले गण्डानामक्षरान्ताभिग होवे विजिम्बते माजयन् देमक्षराम् साधु देविनी गृहे कृताले गण्डानामक्षरान्ताभिग होवे याये परिलक्यत्यागता राकृतङ्गलात् ेवया सारपयः स्वत्ययितु मानो दयतु क्षेतु प्रमोदम् देशम् क्रोधम् न बिभ्रहति आनन्दिनीम् प्रमोदिनीमसरान्दामिहूवे सूर्येरङ्गा सञ्चरन्तिर्वाजानुसञ्चरन्ति यासाः वृषभोधो रथो वादिनेवान् सद्यः सर्वान् लोकान् वर्ये किलक्षन् स नो न मञ्जोषालोन्तरिक्षेण वादिनेवान् अन्तरिक्षेण सह वायम् कर्गेयम् वत्साभिक्षवायन् विग्रेतेः श्लोका गुणाले सर्वा नियन्तेः कर्गे गते मनोस्तो अन्तरिक्षेण सावम् न किम् क्रवायन् अयङ्गासो अयम् वरजवसान्निबद्धेम यथा नाम वरेष्महे स्वाहा पृथिव्यामग्ने समानवन्तर्था यथाः पृथिव्यामग्नरे समरवन्दे वा मय्यम् सन्नवः सन्नवन्तो पृथिवीरेणस्तस्याः अज्ञवत्सः सा वेग्नि वत्से रेणवो ग्रङ्कावन् आयुः प्रथमम् प्रजाम् पोषम् सा अन्तरिक्षे वायवे समनमन् सार्ध यथान्तरिक्षे वायवे समनमन्ने वा अन्तरिक्षम् धेनस्तस्याः वायुर्वत्सः सारे वायुना वत्सेनेशमोर्जलम् कामम् गुहा आयुप्रथमम् त्रयाम् बोषम् नयम् स्वाहा दिव्याः नित्याय समनवन्साध्वा यथा दिव्याः नित्याय समनवन्ने वामयम् सन्नवः सन्नवन्त ोऽध्येन वस्त्रस्यादित्यो वत्सः सामनादित्येन वत्सेन नवद्यम् गामम् द्वा आयप्रथमम् रजाम् दोषम् नरिम् स्वाहा दिक्षुचन्द्राय समानमन्द्वार् यदा दिक्षुचन्द्राय समनामम् नैव मय्यम् सन्नवः सन् नमन्तो चन्द्रेण वत्से वो द्विमम् द्वा कायप्रथमम् प्रजाम् पोषम् नयिम् स्वाहा अग्नामग्निश्चिम् प्रविष्टर्षीणाम् पुत्रो विनष्टिपावो नमस्कारेण नमासा देजु विमादेवानाम् विधुजाकर्मभागम् कृदानसा जातवेदो विश्वाहानि देवमजुलाहानि विद्वान् स्या यादवे नेज्यो जोषस् हे पुरस्ताद्युगवादिजादवेदप्राक्षादिशो जो अभिधातम् यस्मान् अग्निमृत्वा देवन्दाम् देनान्नृतिसरेणे हे दक्षिणयो जगवादि तो दक्षिणायाधिशोः अभिजातम् यस्मान् यमवृत्त्वादे पराञ्जौर्यन्दान् मृत्यगेनान् प्रतिहरेण हन्मेुर्वालि यादवेदः प्रवीच्यादितोऽभिजातम् तस्मान् वरुणमृत्त्वादे पराञ्जो यदन्नाम् वृत्तयेनान् प्रतिहरेण हन्मे यवृत्तरतो दुर्वालि यादवेद उदीच्यादिषोऽभिजातम् तस्मान् देव यदन्ताम् मत्यगेनान् पदसरेण हन्मि ये रसाुब्दासवेदो ध्रुवायासम् तस्मान् भूमि मृत्ता देवराहञ्च व्यदन्ताम् मृत्यगेनाम् पदसरेण हन्मि रिक्षाज्वालिदातवेदो जद्वाराः दिशो अभिरातम् यस्मान् वायुमृत्त्वादेव म्यधन्ताम् प्रत्यये धरेण हन्मि यौ वरिष्ठाज्वलिदादवेदवोर्द्वायाः दिशो अभिरानम् यस्मान् सूर्यमृत्त्वा देव म्यसन्ताम् प्रत्ययेनान्वरेण हन्मि येभ्यावम् तद्देवेभ्यो दुग्दवेदः सर्वाभ्योऽधासन्त्यस्मार ब्रह्मत्वादयञ्च विजन्नाम् प्रत्यये इति चतुर्थम् काण्डम् समाप्तम् अथ पञ्चमम् काण्डम् ओ मन्त्रयोरीय आयो धर्माणि प्रथमर्योयम् प्रथमायो मा च मनोदिताञ्जिकेतायतम्बम् सुयोस्वा अत्रा देते अमृता विनामास्वेस्त्राणि हरे प्रयतयते प्रतरम् मौर्यङ्गम् दो दुर्जम् कविः सुधस्य मात्रा तदोषु मात्रो दुर्गन्नः कविः काव्ये न कृणोमि यत् सम्यम् च भियन्ताः वित्रः महिरोधचक्रे वा भ्यम् सुरोगा आयोगस्तम्भौ कर्म शरीरे पदाम्बि सर्गे धरुणे पुरामृताः सर्वदायम् जण्डन्न तुस्तत्सुमद्गो पुरा च क्रोरचन्द्रा योजयासजाः उदवृद्ध पितरम् क्षत्रीवयम् विष्ट्रतदकरणभावपोंसि अर्धमर्धेन सुष्मार्धने अवम् वरुणम् मुत्रमदित्याय कविरस्तान्यस्मेवत्याेष्ठम् यतो यज्ञो ग्रस्ते सद्योदयज्ञानोदये विश्वभूमा शवनाहोदया न्देन्द प्रभृतामरे रञ्जन्त्रिर्भं यो वा स्वातो स्वादीय स्वादुना तृजा समरस मधुमधुनाभिप्राः स्मिन् समान् लोका परणाय नारणे प्रपश्यन्धे भूरि चोदयामि तायुधावयो विसन्दे नार्ब्रह्म ना वयामिवरे परेऽस्मिन् नाविदावधा गर्वाणिसमर्तम् गुरुवर्त्मानम् सबर्वाणमिरतमाप्त्या आदर्शनिराभो योमानम् पृथिव्याःमा ब्रह्म बृहन्दो नमग्नि महोगोत्रस्य क्षयति स्वराजागरश्च वर्णवत्तव स्वारमान् देव प्रतिहश्चरस्रयाध्यक्षेण कृतनादेव अग्ने वन्यम् व्रजमुदन्वेषान्तम् परे विश्वताः अवाहञ्चोदन्तु दिवताञ्चित्तम् प्रबुधा मिले दे। मम देवालये हरेरन्तु सर्व इन्द्रमन्तो मरुतो विष्णोरग्ने ममान्तरिक्षपुरोगमस्त्वम् वा तास्मै वर्षुन्दाम् मम यानेष्टा गुरोः सत्या मालिजाहङ्गत एवहम् निश्चये देवाभिरक्षन्तु मे हा मणिदेवाद्रविणमाय गन्दाम् मयि यानीरस्तु मणि देवो दे दैवाहोदाः श्रेणन्न एतदृष्टा स्याम तन्मा सुराः दैवी शरणे लृण कृणोत विश्वे देवालय मालय धर्म विरत विभावो रक्षर्माणो विरन् देशायास्रो देवे मे शर्म चले न तन्मे पुत्र स्मिन् हरे रक्षो शरः प्रजाते हर्यश्व भृणेन्द्रमानो देवो मापताभिः सिताभिः नित्या देवान् निरसा येन सपत्नावदे भवन्दिन्दाग्नि आदित्या रुद्राव्रम् चेत्ताराजवक्रता अर्वाञ्चमिन्द्र मम योगो निद्राः किमन् यज्ञम् वे हरेण त्वस्माया महोदय योगेश्वरायम्बलवत्त नमः देवा तत्राम् देवाकृष्ट हिरण्यवरण्यवन्धनादि तत्रास्य पुष्पम् देवाकृष्ट हिरण्यया पन्थानादित्राणि हिरण्यया दावो हिरण्ये अरण्य विकृष्टम् इमम् मे कुष्टकौरोषन्तमालम् विष्णोरु त्वमो मे देवेभ्योपदिजातोपस्यादिदधा स प्राणायो ज्ञानाय रक्षोटे मे अस्मै वेड उदङ्गातो हिमारस्रवाच्या नीयते तत्र कुष्ठस्य नामान्युत्तमानि उत्तमो नाम गुष्ठास्युत्तमो नाम लेविदा यक्ष्मन् धर्मम् नारमानम् चारसम् गृहे शेषमयो भक्ष्य स्तम्बो रमः कुशलस्तत् सर्वम् रात्रे मादा नवक्षिवार्य मादे शिलाजी नाम देवानाम हृष्वधा देवय देवो हन्त्वम् भक्े यस्वदावञ्चन्यञ्जलि वृक्षं वृक्ष मालो हलेण्यन्ते जयन्ते प्रत्यादिष्टन्ते स्वराणि नमादि यद्धन्य स्वायग्णम् तस्य त्वम निष्केयस्यैवन्निष्क्रेयिको रोषम् भद्रात्मक्षान् विशिष्टस्य श्वया भद्रा निर्णात् सारे गिरण्यवर्णे सुभागे सूर्यवर्णे वपुष्टवे ऋदङ्गच्छादिष्के निष्कर्नाम गिरण्यवर्णे सुभागे सुष्मे न वक्षमे वात्मा भो मदे शीलाजीर्णाय कानि लोग बभ्रमिनाथवा अश्वो यवश्चयश्चामश्च आत्नास्य भिणा अश्वस्यात्नः संवादिता साभिक्षा अभिरिशरे शिणी भोत्वा साधने ज्युम्भी ब्रह्म प्रथमम् पुरस्ताद्विदेशो वेदा रे वीरान्नत्रमादन्तद्वारे तत्पुरोदाधे सहस्रेव च समस्वरम् दिवो नाके मुदो दिग्वादश्च कस्य स्वजो नेषम् दिवोर्णाय पदेवादेवाहिनः सन्ति सेदाले परे यो न प्रथम् भावाय दातरे परे वर्त्राणि लक्षणी यो षयो मा सगेन्द्रस्य गृहा शीरसो स्वाहा ऋग्मायोधौ विग्मेसो स्वाहा ऋग्मायोधौ विग्म ्रणीरसो स्वाहायोधौ विग्महे सोमा विषुवृदण् यज्ञमृतमस्मशोधताम् चक्षुरो ेन योऽस्माञ्च चक्षु रावनसादित्याः गायविनाशान्दाय्यामेणेन्द्रेणु स्वाहा इन्द्रस्य गृहो ये त्वन्द्वा प्रपद्ये द्न्द्वा प्रवेशामि सर्वगुः सर्वपोषः सर्वात्मा सर्वदमनोत् सायं मे स्थितेन इन्द्रस्य सर्वादे तन्द्वा प्रवद्ये द्न्द्वा प्रवीशामि सर्वगुः सर्वपोषः सर्वात्मा सर्वजनोत्सायं मे स्थितेन इन्द्रस्य वर्मादे करन्द्वा प्रपद्ये दन्द्वा प्रवेशामि सर्वगुः सर्वपोरुषः सर्वात्मा सर्वदमोत्सायम् मे स्थितेन इन्द्रस्य रोधमधि करन्द्वा प्रपद्ये दन्द्वा प्रविशामि सर्वगुः सर्वगोरुषः सर्वात्मा सर्वदमोत् सायम् मे स्थितेन आनोपरिष्ठारादे नमो वेत्सा वृद्धे नमो अस्मरादये यमाराजे पुरोधत्से पुरोषम् वरिधापिनम् नमस्ते तस्मै कृण्मायम् राजये प्रणो वयर्देवकेदादिबाञ्च राजमनुप्रेमो वयम् नमो अस्मरादये सरस्वते मनोमयम् भगयन्तो ष्टात्मनो देवायम् देवानाम् देवो दिषो यै्याहम् माजादस्वत्यामनो निषा श्रद्धादमद्यो मा वयम् मा वारम् नो मेत्येवाविन् राज्ञे सर्वे नाद्य सन्दोरातिमृते हर्यता ेन चेदत्वारम् निलीवन्दे निराजे उदाम् परादे चितरम् मे सङ्ग्रागो जिम् पुरुषस्य तस्यैरण्यकेश्व चागण हिरण्यवर्णसुभगायण्यकजोर्मयिरण्यत्रे राज्यागर्णः वैकम् कतेभ्याज्यम् त्वमेऽवम् इन्द्रायामेव विदम् गष्यामि दक्षेण ैन्द्रायि सरालोजम् ते विश्वदेव्यामुदो देवादेवम् मा क्षेत्रम् देवास्योप अपि धावता इन्द्रस्य अरण्यकाया प्राणस्यापि रीको लोदये ब्रह्माणोदरे इन्द्रन्द्रम् वृत्तिस्यामित्यरे ये युर्दे पुराणुमानिलक्षे प्रलोपानम् परिमाणम् बृह्वाङ्गे गणवच्छन्तानिन्द्रवत्रान् प्रदीय पुनरागतिरथा मन्त्रणाञ्जनम् यथेन्द्रवद्वाचनम् लब्ध्वा चक्रेस्मलम् जन्वे चेभ्यः समाभ्य वक्त्रैहीरान्द्रवत्रान्वग्रोर्माणि विद्या ष्टेन्द्रमेयाहन्ते स्यामसमतो तव दिवे स्वाहा वृथियै स्वाहा अन्तरिक्षाय स्वाहा अन्तरिक्षाय स्वाहा दिवे स्वाहा पृथियै स्वाहा सूर्यो चक्षुर्वादप्राणत्मात्रो नामायवशि आत्माङ्गोवेय उदायजम् कृतमकृत्याम् इन्द्रियम् आयुष्कृतायुष्पत्नेश्व गोपाने सङ्गोपायम् आत्मसदो मे त्वम् मां दृष्टम् अश्वधर्म मे निरोमा प्राच्यादिरो राजुराभिनादात् एतत्सरेच्छाद अश्वमर्म मे निरोमा दक्षिणाय ऋो गाजुराभिनादात् एतत्सरे अश्वधर्म मे रिजो माजो राजुराभिनादात् एतत्सार अश्ववर्म मे निजोमो नीचा निजो गाजुरभिलाद एतत्सार अर्श्ववर्म मे निजो दिशो गाजुरभिलाद एतत्सचार अश्ववर्म मे त्रियोजोमोर्ध्वाया दिशो गाजुलभिलाद एतत्सार अस्वर्मने बृहताम पर्व मरा शौरिया चुरात्र पृथिव्या शरीर सरस्वत्यावाचम पर्वया मे मनो निजा कथम् महे असुराया द्रविधम् पित्रे हरे वृष्टिम् मरुणदर्जीणान् ददावान् पुनर्न धम् मनसा चिकित्सी न कामे न पुनम् न भोवाक्षेकम् वृष्टितावारे काव्येन केन जातेनादलेन सत्यमाङ्गवीर काम्ये सत्यञ्जाले रास्मि जादमेरा न मे दासो नारिरो मयित्वा तदम् दारिष्ये न त्वदन्यः कविदरो न मेदारीररुणस्वभावनारे तद चिह्नुपज्जनो मारी भारा त्वं या मङ्गवरुणस्वधावन्विश्वादेवालुप्रवीरे किं रजतरेण परो अन्यदस्तेन येन परो अन्यदस्तेन परळेगेन तत्ते विद्वान् वरुणप्रङ्गीवरः पर भवन्तु वेदे अर्धाता उपसर्पन् बुगो ङ्गलारुणब्रवीश्व पूर्वपणे एतावन्मा त्वा जङ्गराधरञ्जना पामा गोजङ्गराधनादः पुनस्तस्मिन् ददामि स्वात्रम् मे विश्वाय देहङ्ग्वासु वा नो देतु दिक्षो तोत्रायुज्येता विश्वासोक्षो यन्मेन दत्तोऽधिप दस्सखाधि समानो बन्धर्वरुणसमाजा वेदाहम् द्यङ्गा वेषा समाजा ददाह्यते अदत्तो अस्मि युज्यस्ते दत्तपदस्सखास्मि देवो देवाय तस्मा पुराणुलुप्रदस्तम् ददानाम्भो स्वमित्रो अद्य मनोषो दुरोणे देवो देवाङ्गत्रमहश्चिकित्तान्तम् दोदः कविर तनो नवात्पदृतस्य जानान् मद्वारमञ्जन्वया वन्वानि देवहृदयज्ञबृन्दम् देवत्रागणो यद्भर्णा आयुर्वान्यच्छायाज्ञेवदोभिस्तयो त्वम् देवानावदय महोदासरेणान्यक्षीरितो ीरम्बर्य प्रतिजा य प्रकरे विकरम् अदीदेवजस्मति ताम् पतिभ्यो न शृङ्गमाणा देवीर्द्वारो विहते विश्वमिम्बा देवेभ्यो भवतः प्रायण आलुष्वयम् देव <Sük> दैव्यावताहारा सुवाचिमाहारायज्ञम् मनोषोभ्यै प्रचोरयन्दा विदधे पारो प्राचीरनम् ज्योतिष्पतिषा झन्दा आरो यज्ञम् भारजेतो ये त्रिडा मास्यति हेदयन्ति ्रो देवेन हरिहेणम् सरस्वती ययिमेऽ्यावा पृथिवी चरित्रैरु वैरमण् विश्वा तमञोदर्हितमीनाम् देवम् कष्टामिषयक्ष्य विद्वान् उपायमञ्जम् देवानाम् पातरु तथा वेन्ते परस्पतिर्श्वविदा देवो अग्निर्स्वम् दुराव्यम् मधुनागृतेन सद्यो जागो व्यामिवेण यज्ञमग्निर्देवानामहात्मोगा अस्यो दुःप्रशिशस्य गलेहि वञ्जम् मरोडो लिवः कविर्वचोग्रैर्नम् आतमरा समुदसगमग्रहे वदनमन्यजानते विषम् यत्ते हवोरम् मिषम् दत्तमम् गृह्णामि ते मध्यममुत्तमम् विषामेन वन्यतृग्ण देवजदालूते अन्तमस्य न भीरङ्ग्रहम् निर्जयत् सूर्या चक्षुषा ते चक्षुरहन्विषे न हन्विते विषम् अरे मृयःस्वादीवे प्रत्यगम्भे तु आविषम् प्रयातवृष्णमुपादन्य मामे सख्यस्तावानमपि ध्याता श्रावयन्तो निमिषेण बद्धम्भ्रोरपोदयस्य साहस्याहम् अन्यो नेयीगे विद्मवः सर्वलोकम् बलसा किम् करिष्यत पुरोताश्च जिज्ञा प्रतङ्गम् सर्वालक्षणम् करुणा स्वामित्तरगिरे वचन्ति ेवास्ता सा वरदम्भिरम् ताभुवन्न तावुवन्नघे त्वमासि तावदम् तावुवेना रसम्भिषम् क्रस्तु वन्न क्रस्तु वर्णघे त्वमासि तस्तुवम् कस्तुवेना रसम्भिषम् सुवर्णस्वान्वृन्दतो अनवर त्तम् निवागत्यागतम् जहि अवजय्यानवगम्यागतम् जहि असोज अस्मान्पम् जय्योढधे विश्वस्यैव वरीजातम्बरिगत्येवैः कृत्याम् गत्यागते देवानिष्कवीणप्रतिमुञ्चत पुनः कृत्याम् गत्यागते हस्तह्यवानय समक्षमस्मादे कृत्यागतम् मनरे कृत्यासन् दवत्यागते चवदर्शपदीयेत्याकृतम् वा यदि स्त्रीरे माम् कृत्याम् चकारे आत्मने रामस्त्री रामस्य शाविधान्याः यदि वाधे कृता पुत्याग्ने प्रयेन कृतम् यदने नित्यं पुत्रैव वितरम् गच्छ स्वी माभिष्ठेतो ददा क्रामे गच्छम् पुरा मृगेणैव वारण्यविष्कन्दम् मृगीव प्रत्याकर्त्रापरदुद्याः नृगमेव गृह्णातु प्रत्यागत्यागतम् पुरा अग्निरेव निकोरमनुकोरविमोधकम् सुगोरधवर्दना चे दशा चे भक्ता पैभवेधु दैज मेदे वृतजाता पैभवेधु निश्च्चये व्रतजातरथाः वैमधूमेव धुलाकारः चतस्रश्च मे चत्वारिंशच्चमेव भक्तारे वोषधे व्रतजातरदाः वैमधुमेव धुलाकारः पञ्चाय मे पञ्चाशच्चमेव भक्तारे पोषधे व्रतजातरदाः वै मधुमेव धुलाकारः षट् मे षष्टिश्चमेव भक्तारे पोषधे हृदयद वरी मधो मेवराकार सप्त मे सप्त मेवक्ताे वोढ़ो मे मधुराकार अक्षज मेन नई मेवक्ताे वोढ़ो मे मधुराकार नवाज मेन वरिष्ठ मेवक्ताे वोढ़ वरी मधो मे मधुराकार ृदमे सदञ्जलमेव भक्तार ओढरे हृदयदारे मधुरागरा सदञ्जले रहसंभक्ता न ओदजातरदारेजानसोरे ध्वजानसोरे निरिद्रे ध्वजानसोरे ध्वजानसोरे यदि पञ्चविषादे ध्वजानसा गरि षड्विषादे धृजानसादि गरि सप्त विषादे ध्वजानसा यद्य विषादे ध्वजानसा यदि न विषादे ध्वजाने यदि ऋषादे धृजानसा यद्योपोदौ ते वलम्बा ब्रह्म यद्विवेको बालस नियः भो रावो देवे प्रथमजा सोमो राजा ब्रह्मजानाम् पुनः प्रायच्छावीरविद्यावीनाय हस्ते नैव ग्रामे ब्रह्मजाने न दूता यत्र हेयाः कस्तरेम् गोपितम् शक्तिरस्य कामाहुस्तार कैतालीकेजीक्षुराम् प्राणावत्य सा ब्रह्मजाया विदूनो जराष्टम् यत्र प्रामाल्यवम् कुदेवान् ब्रह्मचारी गर्वे शक्तिरः स देवानाम् भवत्य ेनहस्तोमेन लीला जुह्वा देवारे देवा तस्याे सप्तस्तपासारे निषेदो देवाजाया ब्राह्मणस्यापलीलाद्धान्तरहमे गर्भापद्य जगत्या ब्रह्मजाया हिनस्ति तान् उदयत्पदस्ति न पूर्वेण ब्राह्मणा ब्रह्मजेधस्तरमग्रहेत्सरेव पदे तथा ब्राह्मणेव पदन्वाश्याः तत्सौर्यप्रब्रुवन्नेति पञ्चभ्यो मानवेभ्यः पूर्वे देवादः पुनर्मनुष्याः रदः या सत्यम् गृह्णायाम् ब्रह्मजायाम् पुनर्द पुनर्दाय ब्रह्मजायाम् कृत्वा देवेन्द्रे गृहम् ओचितम् मृगङ्गा भक्त्वारोगायोदरे नाश्च जाया जगतवाहे कल्याणे धर्मवादारे यस्मिन्नाष्टे हृदये ब्रह्मजायादित्या कर्णकृति राष्ट्रस्मिन् राजते यस्मिन् राष्ट्रेणि दुर्जरे ब्रह्मराजादित्या नास्य क्षत्रानिष्वग्नीव सोनामेत्यग्रणा यस्मिन्नाष्ट्रेणी दुर्धरे ब्रह्मराजादित्या नास्य श्वेतकृष्णकर्मा सुनियुक्तो मारीयणे यस्मिन्दाष्ट्रे निरुध्यते ब्रह्मजायाजित्या यस्मिन नास्य क्षेत्रे पुष्करिणीणाण्डीकम् जायते विहम् यस्मिन्दाष्टे निरुध्यते ब्रह्मजायाजित्या नास्मि प्रश्निम् विदोहन्ते स्यादोहमुपादे यस्मिन्दाष्टे निरुध्यते ब्रह्मजायाजित्या स्य जयुर्कल्याणीनाक्षणानुसह च यत्र ब्राह्मणो राज्ञाः नैतान्दे देवाः स्वस्तुभ्यम् रज अत्र महाब्राह्मणस्य राजन्येत्सो नाद्या अक्षतुग्रतो राजः शब्राह्मणस्य रामद्या आश्चिदाघे हादागोरे धर्म साभ्राह्मणस्य राजन्यदृष्टे रागौरणाद्या निर्णयन्वय दिवन्ति वर्चोग्निवारद्वो नोऽपि सर्वम् योऽभ्याह्मणम् मन्य देहन्न वेदविहस्य मेबदे पातस्य न्दस्येन्द्रहृदये अग्निविन्द उभयन्निष्टो नन्दम् न ब्राह्मणीन्द्रियनिप्रियतनोरिव सोमार्यस्य राजादैन्द्रियस्ति वा क्षदा वा निजेदेव शब्दो दिखिलम् अन्नय्यो ब्रह्मणाम्ब्वसाद्वाद्वे मन्यदे जिह्वाय्यावल्लादन्दास्तव सा विदग्धाद्यते धनुर्भिरे वेक्षेण गो ब्राह्मणा हे जिवन्तो यास्य येन सह श्रवरा जन्ना ते ब्राह्मणस्य गान्यग्गा वैराव्या पराभवन् गौरेवता नन्यमाना वैराव्या मायत् एकेन प्रावन्धाया करमाजावेर्यन् एकङ्गाजनताया भोजन ब्राह्मण एव सम्यक् भूयाय यो ब्राह्मणम् देवलम् घ्वनिरस्ति ने लोकान् अग्निरमयपराय सोमहायादमुच्चरे अन्ताभिषस्तेनमहाविदः यशो योग सिद्धान्तरे पदे पदा गोदेव गोपदे सा ब्राह्मणस्य